अभ्यर्थ्यमाना विबुधैः समग्रैः प्रह्वैः सुरेन्द्रप्रमुखैरुपेत्या तम् पाययामास सुधातिपूर्णम् सुरापगा स्वं स्तनमाशुमूर्ता पिबन् स तस्यास्तनयोः सुधौघम् क्षणम् क्षणम् साधु समेधमानः प्रापाकृतिम् कामपि षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः भागीरथी पावककृत्तिकानाम् आनन्दबाष्पाकुललोचनानाम् तम् नन्दनम् दिव्यमुपात्तुमासीत् परस्परम् प्रौढतरो विवादः अत्रान्तरे पर्वतराजपुत्रिया, समम् शिवस्वैरविहारहेतोः नभो विमानेन विगाहमानः मनोऽतिवेगेन जगाम तत्र निसर्गवात्सल्यवशाद्विवृद्ध चेतः प्रमोदौ गलदश्रुनेत्रौ अपश्यताम् तम् गिरिजागिरीशौ षडाननम् षड्दिनजातमात्रम् अथाह देवी शशिखण्डमौलिम् कोऽयम् शिशुर्दिव्यवपुः पुरस्तात् कस्याथवा धन्यतमस्य मातास्य का भाग्यवतीषु धुर्या स्वर्गापगा सा वनलोऽयमेताः षट्कृत्तिकाः किम् कलहायमानाः पुत्रो ममायम् न तवायमित्थम् मिथ्येति वैलक्ष्यमुदाहरन्ती एतेषु कस्येदमपत्यमीश अखिलत्रिलोकी तिलकायमानम् अन्यस्य कस्याप्यथ देवदैत्य गन्धर्वसिद्धोरगराक्षसेषु श्रुत्वेति वाक्यम् हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः सान्द्रप्रमोदोदयसौख्यहेतुभूतम् वचोवोचत चन्द्रचूडः जगत्त्रयी नन्दन एष वीरः प्रवीरमातुस्तव नन्दनोऽस्ति कल्याणि कल्याणकरः सुराणाम् त्वत्तोपरस्याः कथमेष सर्गः देवि सर्गे जगन् मङ्गलगानहेतोः सत्यम् त्वमेवेति विचारयस्व रत्नाकरे युज्यत एव रत्नम् अत शृणुष्वावहितेन वृत्तम् बीजम् यदग्नौ निहितम् मया तत् ततोऽवगाहे सति कृत्तिकासु गर्भत्वमाप्तम् तदमोघमेतत् ताभिः शरस्तम्बमधिन्यधायि बभूव तत्रायमभूतपूर्वः महोत्सवो शेषचराचरस्य अशेषविश्वप्रियदर्शनेन धुर्यात्वमेतेन सुपुत्रिणीनाम् अलम् विलम्ब्याचलराजपुत्रि स्वपुत्रमुत्सङ्गतले निधेहि अथेति वादिन्यमृतांशुमौलौ शैलेन्द्रपुत्री रभसेन सद्यः सान्द्रप्रमोदेन सुपी न गात्री धात्री समस्तस्य चराचरस्य किरीटबद्धाञ्जलिभिर्नभस्थैः नमस्कृता सत्वरना लोकैहि विमानतो वातरतात्मजम् तम् ग्रहीतुमुत्कण्ठितमानसाभूत् स्वर्गापगा पावककृत्तिकादीन् कृताञ्जलीनानमतोऽपि भूयः हित्वोत्सुका तम् सुतमाससाद पुत्रोत्सवे माद्यतिका न हर्षात् प्रमोदबाष्पाकुलोचनासा न तम् ददर्श क्षणमग्रतोऽपि परिस्पृशन्ती करकुड्मलेन सुखांतरं प्राप किमप्यपूर्वम् सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्बाष्पतरङ्गितायाः विवृद्धवात्सल्यरसोत्तरायाः देव्यादृशोर्गोचरताम् जगाम तमीक्षमाणा क्षणमीक्षणाना सहस्रमाप्तुम् विनिमेषमैच्छत् सा नन्दनालोकनमङ्गलेषु क्षणम् क्षणम् तृप्यति कस्य चेतः विनम्रदेवासुरपष्ठगाभ्याम् आदायतम् पाणिसरोरुहाभ्याम् नवोदयम् पार्वणचन्द्रचारुम् गौरी निनाय स्वमङ्कमारोऽप्यसुधानिधानम् इवात्मनो नन्दनमिन्दुवक्त्रा तमेकमेषा जगदेकवीरम् बभूव पूज्या धुरिपुत्रिणीनाम् निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा तेकपुत्र जगदता अभ्युत्संगिनम प्रस्रविणी बूव अशेषोक्रयमास्तसुस सुरस्रवंत किल कृत्ति मुहुर्मुहु सस्पृहक्षण सुखाश्रुपूर्ण मृगा कलत्र मुखाबुन तलोद्गत पंचप्द्मी क्र षड्वदनीञ्चुचुम्ब हैमीफलम् हेमगिरेर्लतेव विकस्वरम् नाकनदीव पद्मम् पूर्वेऽवदिङ्नूतनमिन्दुमाभात् तम् पार्वती नन्दनमादधाना प्रीतात्मनासा सा प्रयतेन दत्त हस्तावलम्बा शशिशेखरेण कुमारमुत्सङ्गतले दधाना विमानमभ्रम् लिहमारुरोह महेश्वरोऽपि प्रमदप्ररूढ रोमोद्गमो भूधरनन्दनायाः अङ्कादुपादत्त तदङ्कतः सा तस्यास्तु सोऽप्यात्मजवत्सलत्वात् दधानया नेत्रसुधैकसत्रम् पुत्रम् पवित्रम् सुतयातयाद्रेः संश्लिष्यमाणः शशिखण्डधारी विमानवेगेन गृहाम् जगाम अधिष्ठितस्फाटिकशैलशृङ्गे तुङ्गे निजम् धाम निकामरम्यम् महोत्सवाय प्रमथप्रमुख्यान् पृथून् गणान् शम्भुरथादिदेश पृथुप्रमोदः वृषवाहनस्य गिरीन्द्रपुत्र्यास्तनयस्य जन्मनि अथोत्सवम् संववृते विधातुम् स्फुरन्मरीचिच्छुरिताम्बराणि सन्तानशाखिप्रसवाञ्चितानि उच्चिक्षिपुः गणा गणवरा स्फिकाल दिक्षु प्रसर्पस्तीरा अथा मध्यलोके महोत्सव शंसीुते दध्वा नधीर पटहः पटीयान् महोत्सवे तत्र समागतानाम् गन्धर्वविद्याधरसुन्दरीणाम् सम्भावितानाम् गिरिराजपुत्र्या गृहे भवन्मङ्गलगीतकानि सुमङ्गलोपायनपात्रहस्ताः तम् मातरो मातृदभ्युपेताः निधाय दूर्वाक्षतकानि मूर्ध्नि निन्युस्वमङ्कम् गिरिजातनूजम् ध्वनत्सु तूर्येषु सुमन्द्रमङ्क्यालिङ्ग्योर्ध्वकेष्वप्सरसो रसेन सुसन्धिबन्धम् ननृतुः सुवृत्तगीतानुगम् भावरसानुविद्धम् वातावुः सौख्यकराः प्रसेदुः आशाविधूमो हुतभुग्दिदीपे जलान्यभूवन् विमलानि तत्रोत्सवेऽन्तरिक्षम् प्रससादसद्यः गम्भीरशङ्खध्वनिमिश्रमुच्चैः गृहोद्भवा दुन्दुभयः प्रणेदुः दिवौकसाम् व्योम्नि विमानसङ्घाः विमुच्यपुष्पप्रचयान्प्रस्रुः इत्थम् महेशाद्रिसुता सुतस्य जन्मोत्सवे सम्मदयाञ्चकार चराचरं विश्वमशेषमेतत् परम् चकम्पे किल तारकश्रीः ततः कुमारः समुदाम् निदानैः स बाललीलाचरितैर्विचित्रैः जहार मुदे न हृद्य कि मुलकेलि महेशुता चहर्षात हर्षा सतर्ष मुखे न दन्तानि मुखानि सूनो मनोहरा क्रमतश्चुचुम्ब क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः क्वचिदप्रकम्पैः बालः स लीलाचलनप्रयोगैः तयोर्मुदम् वर्धयति स्म पित्रोः अहेतु हासच्छुरिताननेन्दुः गृहाङ्गणक्रीडनधूलिधूम्रः मुहुर्वदन् किञ्चिदलक्षितार्थम् मुदम् तयोरङ्कगतस्ततान गृह्णन्विषाणे हरवाहनस्य स्पृशन्नुमाकेसरिणम् सलीलम् सभृङ्गिणः सूक्ष्मतरम् शिखाग्रम् कर्षन् बभूव प्रमदाय पित्रोः एको नव द्वौ दश पञ्चसप्तेति अजिगणन्नात्ममुखम् प्रसार्य महेशकण्ठोरगदन्तपङ्क्तिम् तदङ्कगशैशवमौघ्यमैषिः कपर्दिकण्ठान्तकपालदाम्नः अङ्गुलिम् प्रवेश्याननकोटरेषु दन्तानुपात्तुम् रभसि बभूव मुक्ताफलभ्रान्तिकरः कुमारः शम्भोः विगाह्यगाढम् शिशिरान्सेन स जातजाड्यम् निजपाणिपद्मम् अतापयद्भालविलोचनाग्नौ किञ्चित्कलम् भङ्गुरकन्धरस्य न मज्जटाजूटधरस्य शम्भोः प्रलम्बमानम् किल कौतुकेन चिरम् चुचुम्बे मुकुटेन्दुखण्डम् इत्थम् शिशो शैशवकेलिवृत्तैः मनोऽभिरामैर्गिरिजागिरीशौ मनोविनोदैकरसप्रसक्तौ दिवानिशम् नाविदतां कदाचित् इति बहुविधम् बालक्रीडा विचित्रविचेष्टितम् ललितललितम् सान्द्रानन्दम् मनोहरमाचरन् अलभतपराम् बुद्धिम् षष्ठे दिने नवयौवनम् सकिल सकलं शास्त्रं शास्त्रम् शस्त्रम् विवेदविभुर्यया